अथ षष्ठकाण्डे तृतीयप्रश्नः प्रारम्भः दया नर्वै यज्ञस्य चात्कालै यज्ञस्य दया नृपाय देवा वै यज्ञम् पराजयन् यज्ञस्य अपराजय ध्वन्ये ध्वन्ये ेव यज्ञस्यापराजितंैनं पुनस्तनदेवजित्येव खलु वा एते यन्द्रिये बहिष्पवमानगो सत्पन्दि बहिष्पवमाने स्तुत आहान् विहरपरिसृणायु प्रोडाशाको अलङ्कुर्विधि यज्ञमेवापजित्य पुनस्थन्नायन्दृङ्गारे सवने विहरति सदाकारयतो संहरत्येव मस्मिन् लोके सोममलक्षन्तेन्दमन्व वा येन्दे परिवेष्टा नन्देन्दते देवेषु छन्दतान् देवान्देनामले गुरुत्वमध्याप्स्य धनवेत्यग्नयोस्तस्मा ब्राह्मणो दुःखस्तेषाञ्च सं वर्य विशन्ते समवीतं देवावैया प्राचीराहुतिरजो होर्ये परस्तादसुराः सन्तागस्ताभिप्राणनया प्रदेजीर्ये पश्चादसुराः सन्तागस्ताभिर्वानदन्द प्राचीरन्या आहुदय होयन्दे ृष्ट्यान्याघिवीयन्दे प्रेत्या प्राणान् सङ्कर चेत्रमायगस्या एषा यज्ञस्य प्राणवाङ्गर्य प्रत्यङ्ग सर्पेदपाने प्राणन्दत्याक्रमाय कस्याम्मार्यरुपकायेत्वार्यदत्पर्यरुपकायत्रे वायच्छेदुपकाशुकास्य वा स्यात् ब्रह्मवादिनो वदन्ति न सर्गस्ति चे सोमे धर्यः प्रत्यम् क्षिणानि होतु मे धिया मोहि सदेषाञ्चस्मा देवायामम्बायामम्बानुज्ञास्यन्त्येत्युत्तरेणादीत्वम् परीत्यज होतदाक्षिणानि न प्राणान् सङ्कर्षतिन्ये दृष्टिया उप्युन्ते नान्येयान्यवपदिते नतान् प्रेणाति यान्नपति ते न स्वर्गाय वा एतानि लोकाय होयं देयत्वै सज्जनानि प्रतिष्ठेन्दरिक्ष एवाक्रमदीयर्गमेवेदं लोकङ्गमयति देवार्गं लोकयतो रक्षाकस्य जिघागो सन्ते रक्षागस्य महत्याप्तमात्मानं कृत्वा सुवर्गं लोकमायं रक्षसा त्यथ वै सज्जनादिवा वै ददा वेत्कृत्याप्तमेवैजमानं वृत्तासवर्गं लोकङ्गमैरक्षसामनुपलाभाया सोमन्दतन्महावाहव्यान्यात्मानयन्तन् स्यास्ति वायव्यात्सहोपवादयेदपवाय सौम्यच्चा प्रवादय स्वैवे देवतया प्रपादयत्य नित्याहेवैत त्यजमानो वाय ेषो देव सवितः सोमैत्याह सवितृप्रसोदेवेयं देवताभ्यः संप्रयच्छत्येतत्पम देवो देवानुपागा इत्याह देवोभ्येषं मनुष्यो मनुष्यानित्याह मनुष्यो मनुष्यानुपैतत्प्रजा पशुपीनमानस्यात् सह प्रजया सह राजस्पोषेणेत्या पशुभिः सदेवं लोकमुपावत्तते नमो देवेभ्यः कारो हि देवानागस्वधानिपाशादित्याहवर्णपाशादेव निर्मोक्षेदोरां श्रे भूते पुनर्वाद्रामस्थिराज्ञम् आज्ञेन्द्रोपवासै वैष्णव्यत्या भक्त्वा यो भच्छैद वैष्णवो वै देवतया यो वस्वयैवेनं देवतया चैत्यच्चन्यानुपागामित्याहारे धनान्यानुपैत्यर्वाग् वैष्णवं देवैत्याहदेव यज्ञस्त्वा सविता मत्वा न ीरित्यास्मादावृश्यमाद्वृक्षाणां भूयागुं शिक्षन्ति ेत्या आदिशमेवैकामाशास्त्य नक्षसङ्गं वृश्चेत् नक्षसङ्गं वृश्चेदश्चाद्य रोहन्तस्मै वृश्चे देशवैव नस्पती नाम प्रतिष्ठितो प्रतिष्ठित एव भवलिहं कामयेता पशुस्यादित्य वर्णन्दस्मै शुष्काग्रं वृच्ये देशवैव नस्पती नाम पशुम्य पशुरेव भवलिहं कामयेत पशुमान् बहु वर्णन्दस्मै बहुसाखरं वृक्ष्ये देशवेव न ैव प्रत्ययव प्रत्यङ्गपनस्तं वृश्चेत् सहि वृश्चेत्यङ्गामयेतोपै नज्ञोनमेतिपञ्जाक्षरापन्दस्पान्तो यज्ञोपै नज्ञोनमतिषडत्नं प्रतिष्ठाकामस्य षड्वातिष्ठति सत्त्वात् सप्तपदाशुक्वश्य शोनेवावृन्धैर्वात्यं जयजस्कामस्य त्रयजस्त्रेजस्येव भवत्येकादशाक्षराष्टंभोक्त्यं प्रजाकामस्य सप्तदश प्रजापतिप्रजापतेराष्टाक्षरागायत्व योगायत्री गायत्रीयज्ञमुखम् तेजसैयोगायत्रियायज्ञमुखेन संवितः अग्य तान् तारिक्षाय तदवेत व्यैह्य हि वेनम् लोके व्यत्राक्षदि परां अञ्चम राक्षदि परां निवेह स्वर्गलोकः क्रोहनमवाए दत्तरा द्यक्खनच्च पोवलय दिशान् जयमवधीरम युज्जोर्पयम औदजमानैरयो वसंमितो जावानेव यजमानस्त आवदीनेव आस पिनोर्तुन्द धायु मित्रनागम सकल नमसेति परिहर नमस्ते माज्य मित्रदेवः आगह्य तद्यन् निकादं यत् परिहर नमस्ते इति विनिहात् तदग्य ज्ञानखातस स्तेर्यमिना तस्यामेवैनम् विनादृशमवास्य रसते रसमेवैनम् विनाति देवस्वा सितामग्नम् कृतिप्राप्स्वौषधीत्य इति विशालं प्रतिमुञ्चदितस्माच्छीर्षत ओषधयपरं कृते जोगाध्यक्म श्रीमलक्नमेव तेजसा कान्तमलक्न्तमेव यजमानं तेजसा नेवास्मिन्देधात्यहैषान् लोकाणां निधत्यैवैष्णुं नित्याकल्पयति वै वैष्णवो वै देवतया यो स्वैवेनं देवतया कल्पये सहाभ्याङ्गल्पे दृपायमानप्रतिष्ठित्ययङ्कामये तेजसैनं देवताभिरिन्द्रियेणभ्यर्थये यमित्यकृष्टान्दस्याश्रमाः वनीयादत्थं वेऽथं वादिनावये तेजसैवैनं देवताभिरिन्द्रियेणभ्यर्थये दियङ्कामये तेजसैनं देवताभिरिन्द्रियेण समर्थये यमित्यकृष्टान्दस्याश्रमाः वनीयाद सम्मिनया मित्याेवैतत्परिव्ययत्य समर्थैति नाभिदग्ने परिव्यैति नाभिदग्न एवास्माकोर्जस्मान्नाभिधग्नोर्ज्याभ्येयं कामयेतोऽर्ध्वान् जीं वार्जमे कामयेदपुरुष्यादित्य वा जीमवो हे दृष्टिमेव नयच्छति कामयेतावरुषस्यादित्योर्ध्व ृष्टिमेवृणान्यघातं मनुष्याणामूर्धन्यघाता या ओषधी नामेवोपो यद्योपं विनादुर्वा एव देवता देवास्वर्गं लोकमायन्ते मन्यष्यान् भविष्यन्तिर्गन् लोकमायन्त रिक्तमासीत् यज्ञस्य ेव प्रीणादिदेवा ै देवा अस्मिल्लोकः सन्मान्यर्किञ्चनप्रायां प्रजानाम् प्रजननायत्रशुरि यत्पशुमालभ्याग्निंवन्थे तद्रा यजमानमपि दध्याक्रमायुगस्या हरत्य सर्वा देवता हविरेतद्यत्पशुरिज यत्पशुमालभ्याग्निंवन्त कृत्यैवैत्याः गङ्गायत्रं छन्दो न प्रजाय स्वेत्या हन्दोभिदेवैनं यानहेत्या हसावित्रे वृषब्रह्वाचोदेवैन जोत यानुहेत्याहकाण्डे काण्ड एव प्रहृतौ भवत्याहसान् प्रहत्यजुहोदजामपिन्धामयदात्यन्द्रिये नैव समर्थयत्यथो सात् इच्छदैवनागुरो देवाहतेहत्ययो वैस्तस्मादेवृहस्पदे धारयसोमेत्याह ब्रह्म वै देवानां बृहस्पति ब्रह्मणैवास्मै पशो न वर्धे हव्यादे स्वदन्धामित्याह स्वदयत्येवैनान्देव त्वश्चन्वेत्याहत्वष्टावैपशो नाम्य मित्याः पशुभो वैरेवस्मै रमयति देवस्य त्वा से प्रसोद्याश्विना बाहुभ्यामित्याहश्मो हि देवानामध्वर्यो आस्तास्ताभ्यामित्याहयत्या रथस्य त्वा देवः विप्पासेनारभ इत्याह सत्यं वात्यञ्चं प्रति ्यावृत्त्यै दर्षामानुशानिषधेभ्यः प्राक्ष्मेत्याः सम्भवति यत्पशुरपाम् पेजुेत्याहैष्यपाम् पातायो मेधायार्प्यते स्वदतैरमित्याहसुतयेत्येवनमुपरिष्टात् प्राक्ष्यपरिष्टादेवैनम्येऽध्यम् करोति पायेत्यन्दरत एवैनम्येऽध्यम् करोत्यक्षर सर्वद एवैनम्येऽध्यम् करोति ैहो देवा असुरा नभ्यभवन्न समिध्यमानाया सप्तदश प्रजापति प्रजापतेराप्ते सप्तदशान्वा हत्वादश मासायन्ते प्रजानाम् प्रजननाय देवा वैसामिधनेरनोच्च यज्ञीमा घारमाघारयत्तदो वै देवा यज्ञमन्वश्य न यत्रमाघारयते यज्ञस्यानुष्ठ्या यदा इति अवरुन्ध्य शिरो वा यदा घार आत्मा विशुराघारमाघार्येव यज्ञस्य प्राणञ्जोरङ्गा यज्ञपतिरात् स्मादुपरिष्टात् अशान्नात् सप्त प्राणात्म्यैकादशो यावानेव सुन्द्रायेथामित्याह वज्रेणैवैनं दशे कृत्वा लभते पर्यज्ञकरा सर्वसदमेवैनम् करात्यस्कन्धाया स्कन्दगृहीतद्यद्धतस्य ेवनीयते यत्पशुस्तवार्गाय वा एष लोकायत्पशुरिवारभ्रमप्रेश्वहोत्रैत्याहेषाहीति एवं वेद पश्चाल्लोकानेत्यादित्यस्मय आधानास्तेभ्य एव नमस्कारात्पाहेत्याभ्यादु त्ये कृतस्य कुल्यापुरसः प्रजया सह राजस्पोशेनेत्याहादृशमेवैतामाशास्त आपो प्राणान् वाक्तः आप्यायुता प्राणस्थ आप्यायुतामित्याह प्राणेभ्य एवाश्रिप्रविश्यामेवत्या हद्रवैश्व आच्छद्य ैव रक्षायो रक्षान्त हतो वाष्टयस्वे नन्दे नयति शे त्वे दिवपामुखितेषयो रजते इदपधुञ्जान्धातुञ्जादयता स्याधर्मयोपत्यन्ययानध्या वा पृथिवीत्या ारायश्वमन्शुं मृत्येवस्मिन्नेव लोके प्रतिष्ठत्य पुरस्ता देवता एव हव्येनान्वे दङ्गारे देवता अधिमन्ये दवा योगे स्माद्भक्ता स्तोका अवपद्यन्ते क्रन्दा एतत्पुषो ना यत्पोषधीनां परिहरग्रे नैवाक्रमो समर्थयत्यथोकौषधीश्व पशून् प्रतिष्ठापयदि स्वाहाकृते समिष्टि प्राणापानो वा एतौ पुशूनान्यत्पुषदात्यमात्मा पपात्येव पुशूनां प्राणापानो दधाति स्वाहो गच्छद्या श्रे प्रहृदेनैवेणे प्रहृद् विशोदे प्रहृदमा प्राणाभानौ पशुमालभ्य प्रौढाशमेधमेवै नमालभते प्राणा पानव हेतोपशूनां निःपृषदाद्यं पशु खलु वा प्राणापानो दधाति पुष्णा वै देवाः स्वर्गम् आपमाहिन्त्येव मन्यन्तमनुष्यान् मां वा भविष्यन्ति ऋतस्य शिरश्छित्वामेतं प्राक्षारयन् स प्रक्षो भवतः प्रक्षस्य प्रक्षा कोत्तरपरिणात् ृदयेनाभिगच्छति पुशार्यथा पूर्वस्यैवेषामवद्यति यथा पूर्वमेवास्य पुरवस्यावद्यतो हि प्राणोत्तमस्यावद्युत्तमो हि प्राणा यदितरञ्जलेतरमभेमेवाया विजायमानो वैत्राया चतुर्भ्य एष वा अनुनाय प्रकृती यज्वा ब्रह्मचारिभासी तदवदाने देवावदयश्रवस्यन्परासुरायत्रयङ्गानागोध्यति भ्रातु या पशुप्रहार्यप्रतिष्ठित्यै मेदशास्रुचोक्तोर्ना तिमेधोरूपा वै पुशोरूपमेव पशुशुधादिजोषन्नवधा योर्नो तिरसो वा एषोनान्यसमेव पशुशुधादिपार्श्वे नवसा होमं प्रयोधि मध्यं वा एतत्पशूनान्यत्पार्श्वगुणस एषवशोनान्यत्रसा यत्पार्श्वेन वसा होमं प्रयोति मध्यत एव खल्वै देवतया प्राण ऐन्द्रोपान ऐन्द्रः प्राणो अङ्गे अङ्गेपानाष्टाहि देवतया पशुभो विशुरूपायत्स लक्ष्माणो भवते भवन्ति देवत्रायन्दमोषखायोनुत्वा मातापितरोमन्तिहानुमतमेवैनं मात्रापित्रा सुवर्गं लोकङ्गमयत्यर्थत्येव सा होमञ्जहोऽत्यसौवा इमेपृषधा हवनस्पदये प्रेष्ये ऋक् प्राणावेव पशुषु दधात्यन्यस्यानारूपाष्णोपरसो वा एष पशोनान्यजो दधाति शवो वा इडा पशूनेवो वक्तयते चतुर्वयते चतुष्पादो हि पशुवो यङ्कामयेदस्कन्दस्मानाद्वो रूपेणैवैनं पशुभ्यो लभ्यजत्येवस्मानाद् ध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनपरन्ध्ये पशुमानेव भवति प्रजापतिर्यज्ञमसृजितसहाज्यं पुरस्थादसृजतपशुध्यं पश्चात्तस्मादाय त्येनानुयास्मादेतम् पश्चात्सृष्टग्रह्येकादशानुदयुषात्म्यकादशान्ति वा एतत् प्राणापानो खलु वा एतौ पुशूनान्यप्रशदाचदात्येनामेव पशुषु दधाति षष्टकान्ते तृतीयः प्रश्नः समाप्तः